मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा व्रतोऽयं पुरुषव्याघ्रः तव पुत्रः पतिः शुभे वीरेणाहं तथा नेन यशस्विनी प्रत्याख्याता जीवामि सत्यमेतद्ब्रवीमि ते तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि मत्वा मूढेति तन्मा त्वं भक्तावानुगतेति वा भर्त्रा नेन महाभागे यथेष्टं देवरूपिणं पुनश्चैवानयिष्यामि विश्रम्भं कुरु मे शुभे अहं हिमनसाध्यात सर्वान् नेष्यामि वः धान्यहं त्वार्ये न चास्मिरजनीचरी